गरुडपुराणम् आचार्यकाण्डम् अध्यायम् हण्ड्रेड् अण्ड् फोर्टि वन् हरिरुवाच कृष्णो ह्यश्वमेधदत्तश्चाप्यधिसोमकः कृष्णोनिरुद्धश्चाप्युष्णस्तदश्चित्ररथो नृपः चुदित्रथो वृष्णिमांश्च सुपेणश्च सुनीधकः नृचक्षुश्च मुखा बाण मेधवी नृचक्षुश्च मुखा बाणः मुनयो मेधावी च बृहद्रथो हरिस्तिक्मो सदानीकसुदानकः नरश्चैव दण्डपाणिर्निमित्तकः क्षेमकश्च ततः शूद्रः पिता पूर्वस्तदः सुदः बृहद्बलास्तु कथयन्दे नृपोश्चैक्ष्वागुवंशजाः बृहद्बला दुरुक्षयो वत्सव्यूहस्ततः वत्सव्यौ तदसूर्यः सह देवस्तदात्मजः बृहद श्वोभानुरधप्रदीच्यश्च प्रदीतकः मनुदेवस्तु नक्षत्रकिन्नरश्चान्तरिक्षकः सुपर्णकृतजिच्छैव बृहद्भ्राजश्च धार्मिकः कृदञ्जयो शुद्धोदनो बाहुलश्च सेन जिक्षुद्रकस्तधा सुमिधकुटवश्चादसुमित्रान् मागधान् शृणु जरासन्दः सह देवः सोमापिश्च बहुकर्मकः श्रुदञ्जयसेनजिच्च भूरिश्चैव शुचिस्तद्धा क्षम्यश्च सुव्रदो धर्मश्मश्रुलो दृढसेनकः सुमधिसुबलो नीदो सत्यजिद्विश्वजित्तद्धा युषुञ्जयश्च इत्येते नृपा बार्हद्रथा स्मृताः अधर्मिष्ठाश्च शूद्राश्च भविष्यन्ति नृपास्ततः स्वर्गादि कृद्धि स्वर्गादिकृधिभगवान् साक्षान्नारायणो व्ययः नैमित्तिकप्राकृतिकस्तथैवात्यन्तिकोलयः यादिभू प्रलयम् प्रचाप्सूख्यपस्तेजसि पावकः वायौ वायुश्च वियदित्वाकाश्यौ यात्यहङ्कृतौ अहम्बुद्धौ मदिर्जोवे जीवो व्यक्ते तदात्मनि आत्मा परेश्वरो विष्णुरे नारायणो नरः अविनाश्य परं सर्वं जगत्स्वर्गादिनाशिः नृपादयोगदानाशमधपापं विवर्जयेत् धर्मं कुर्या येन पापं हित्वा हरिं व्रजेत इति ूडे महापुराणे आचारकाण्डे भविष्यराजवंशगृनामैकचत्वारिंशदुत्तरशततमोऽध्यायः ओ अध्यायम् हण्ड्रेड् अण्ड् फोर्टि टु ब्रह्मोवाच विंशादीन्पालयामासख्यवतीर्णो हरिप्रभुः दैत्यधर्मस्य नाशार्धं वेदधर्मादिगुप्तये मत्स्याधिकस्वरूपेण त्वपदारं करोत्यजः मत्स्यो भूत्वा भयग्रीवं दैत्यं भक्त्वा जिकण्टकं वेदानानीयमन्वादीन् पालयामास केशवः मन्तरं धारयामास कूर्मो क्षीरोदमधने वैद्यो देवो धन्वन्तरिर्ह्यर्बुद बिभ्रत्कमण्डलुं पूर्णममृतेन समुद्धितः आयुर्वेदमधां शुश्रुताय स उक्तवान् अमृतं पायसाम अमृतं पाययाम सस्त्रीरूपी च सुरान् हरिः अवतीर्णो वराहोधहिरण्याक्षम् जखानः पृथिवीं धारयामास पालयामास देवदाः नरसिंहो वर्दोर्णोदहिरण्यकशिपुं रिपुं दैत्यानिहद वान् वेदधर्मादीन्यभ्यपालयद तद परशुरामोऽभूत् जमदग्नेर्जगत्प्रभुः त्रिसप्तकृत्वपृथिवी चक्रे निः क्षत्रियाम् हरिः कार्तवीर्यम् च कानाजौ कश्यपायमहीम् ददौ यागम् कृत्वा महाबाहुर्महेन्द्रे पर्वदे स्थितः ततो रामो भविष्णुश्च चतुर्थ दुष्टदर्ण। दुष्टर्मदनः पुत्रो दशरथाजज्ञे रामश्च भरदो निजः लक्ष्मणश्च शत्रुघ्नो रामभार्या च जानकी रामश्च पितृसत्यार्थम् मातृभ्यो हितमाचरन् शृङ्गवेरम् चित्रकूढम् दण्डकारण्यमागधः नास्ताम् शूर्पणकायाश्च चित्त्वाथ करदूषणम् अत्वा स्व राक्षसंसीताप आरिरजनेचरम् रावणम् चानुजम् तस्य विभीषणं रक्षो रक्षोराज्ये च संस्थाप्य सुग्रीवमनु सुग्रीवनुमन्मुखैः आरुह्य पुष्पकं सार्धम् सीतया परिभक्तया लक्ष्मणेनानुकूलेन ह्ययोध्याम् स्वपुरीम् गदः राज्यम् चकारदेवादीन् पालयामास स प्रजाः धर्मसंरक्षणम् चक्रे ह्यश्वमेधाधिकान् क्रदून् सा महीपदिनारे मे रामेणैव यथा सुखम् रावणस्य गृहे सीता स्थिता कर्मणा मनसा वाचा गदा राघवं सदा पदिव्रता दुसासीदाह्यनसूया यथैव पदिव्रदाया पतिव्रताया महात्म्यम् शृणुत्वं कौशिको ब्राह्मणकुष्ठीप्रतिष्ठाने भवत्पुरा तं तथा व्याधितं भार्या पदिं देवमिवार्चयद निर्भर्सितापि भर्तारं तममन्य भर्त्रोक्ता सनयद्वेष्यां शुल्कमादाय पदि शूले तदप्रोदमचौरं चौरशङ्खया माण्डव्यमधिदुःखार्थमन्धकारेथ सद्विजः पत्नी स्कन्ध समारूढश्चालयामस आदवमर्षणत् क्रुद्धो माण्डव्यस्तमुवाचः सूर्योदये मृतिस्तस्य येनाहम् चालितः पद सूर्यो नोदयमेष्यति तद सूर्योदय भावादभवत्सददं निशा बहून्यब्धप्रमाणानि ततो ब्रह्माणम् शरणं जक्मुस्तामोजे पत्मसंभवं प्रशाम्यते तेजसैव तपस्तेजस्त्वनेन वै पतिव्रताया माहात्म्यान्नोद्गच्छति दि दिवाकरः तस्य चानुदयाद्धा निर्मर्त्यानाम् भवताम् तथा तस्मात् पतिव्रता मात्रेरनसूयाम् तपस्विनीम् प्रसादयद वैपत्नीं भानो तैसा तैः सा प्रसादिदा गत्वा ह्यनसूयापदिव्रता कृत्वा दित्योदयं साजतं भर्तारमजीवयद पदिव्रता न सूयाया सीदाभूदधिका किल इति श्रीगारुडे महापुराणे आचार्यकाण्डे दशावतार द्विचत्वारिंशदुत्तरशततमोऽध्यायः ओ अध्यायम् हण्ड्रेड् अण्ड् फार्टि त्रि ब्रह्मो वाच रामायणमदो वक्ष्ये श्रुतम् पापविनाशनम् विष्णुनाभ्याब्जदो ब्रह्मा मरीचित्तत्सुतो भवद मरीचे कश्यपस्तस्माद्रविस्तस्मान्मनुस्मृदः मनोरिक्ष्वाहुरस्या भूध्वंसे राजा रघुस्मृदः रघोरजस्तदो जादो राजा दशरथो बली तस्य पुत्रास्तु चत्वारो महाबलपराक्रमाः कौसल्यायामभूद्रामो भरदकैकयीसुधः सुधौ शत्रुघ्नौ सुमित्रायाम् बभूवधुः रामो भक्त पितुर्माधुर्विश्वामित्रा दवाप्तवान् अत्र ग्रामम् ततो यक्षीम् ताडकाम् प्रजखानः विश्वामित्रस्य यज्ञे वै सुभासुम् न्यवधीद्बली जानकस्य क्रतुम् गत्वा उभयो उभये मेधजानकीम् ऊर्मिलाम् लक्ष्मणो वीरो भरदो मांडवीम सुधाम् शत्रुघ्नो वै कीर्तिमदीम् कुशध्वज सुदे उभे पित्रादिभिरयोध्यायाम् गत्वा रामादय स्थिताः युधाजितम् मातुलम् च शत्रुघ्नभरतौ गतौ गदयोर्नृपवर्योत्सौ राज्यम् दातुम् स रामाय तत्पुत्राय कैकेय्या प्रार्थितस्तदा चतुर्दशसमावासो वने रामस्य वाञ्छितः रामम् पिदृचिदार्थम् च लक्ष्मणेन च सीदया राज्यम् च तृणव त्यक्त्वा शृङ्गवेरपुरम् गदः रथम् त्यक्त्वा प्रयागम् चित्रकूटगिरिम् तद् रामस्य तु वियोगेन राजा स्वर्गं समाश्रितः संस्कृत्य भरतश्चागात् राममाभबलान्वितः अयोध्यान्तु समागत्य राज्यम् गुरुमहामदे स नैच्छत्पादुके तत्त्वराज्याय भरताय तु विसर्जितोत भरतो राम राज्यमपालयद नन्दिग्रामे स्थितो भक्तो ्ययोध्यां नाविशद्वी रामोऽपि चित्रकूटाच्च ह्यत्रेराश्रममाययौ नत्वा सुदीक्ष्णं चागत्यं दण्डकारण्यमागदः तत्र चूर्पणखा नाम राक्षसी चातुमागद निकृत्य कर्णो नास्य च रामेणाथा भवाजिधा तत्प्रेरिध हरश्चा गादूषणस्त्रिशिरास्तथा चतुर्दशसहस्रेण रक्षसान्धु बलेन च रामोऽपि प्रेक्षयामास बाणैर्यमपुरञ्च तान् राक्षस्य प्रेरितोऽभ्यागाद्रावणो हरणाय हि मृगरूपम् कृत्वाग्रे धत्रिदण्डकृद सीतया प्रेरिदो रामो मारीजम् निजखानः म्रियमाणः सज प्राहहासीदे लक्ष्मणोदिज सीतोक्तो लक्ष्मणो धागा रामश्चानुदर्शतम् उवाच राक्षसी मायानूनं सीदा सीता हृदेदि सह रावणोन्दरमासाद्य ह्यङ्गेनादाय जानकीम् जडायुषम् विनिर्भिद्य जयौलङ्काम् तदो बलि अशोकवृक्षच्छायाम् रक्षिताम् कामधारयद आगत्य रामशून्याम् च पर्णशालाम् ददर्शः शोकम् कृत्वा धजानक्या मार्गणम् कृतवान् प्रभुः जडायुषम् च तदुक्तो दक्षिणाम् दिशम् गत्वा सख्यं ततश्चक्रे सुग्रीवेण च राघवः सप्ततालान् विनिर्भिद्य शरेणानदपर्वणा वालिनञ्च विनिर्भिद्य किष्किन्धायां हरीश्वरं, सुग्रीवम् कृतवान् राम दृश्यमोगे स्वयं स्थितः सुग्रीवः प्रेषयामा सीतायाम् अर्गणम् कर्तुम् पूर्वाद्याशासु सोत्सवान् प्रतीचीमुत्तराम् प्राचीम् दिशम् गत्वा समागताः दक्षिणान्धदिश्यम् ये च मार्गयन्तोऽथ जानकीम् वनानि पर्वतान् द्वीपान्नदीनाम् पुलिनानि चानकीम् देह्य पश्यन्तो मरणे हृदनिश्चयाः सम्पादिवचनात् ज्ञात्वा हनुमान् कपिगुञ्जरः शतयोजनविस्तीर्णम् बुप्लुवे मकरालयम् अपश्यज्जानकीम् तत्र ह्यशोक वनिकास्थिदाहम् वर्षिताम् राक्षसीभिष्टरावणेन च रक्षसा भवभज्यति वदता चिन्तयन्ती च अङ्गुलीयम् कपिर्दत्त्वा सीतां कौशल्यमब्रवीद रामस्य तस्य दुदोहम् शोकं मा कुरु मैथिलि स्वाभिज्ञानञ्च मे देहि येन राम स्मरिष्यदि तच्छ्रुत्वा प्रततौ सीता व्यणिरत्नम् हनूमदे यथा शीघ्रं तथा वाच्यम् त्वया कवे काधेत्युक्त्वा दु हनुमान्वनं दिव्यं बभञ्जः अस्त्वाक्षम् राक्षसान् चान्यान् बन्धनं स्वयमागतः सर्वैरिन्द्रजितो बाणैर्दृष्ट्वा रावणमब्रवीद रामदूतोऽस्मि हनुमान् देहि रामाय मैदिलीं यद श्रुत्वा प्रकुपितो दीपयामास पुच्छकम् कपिर्ज्वलितलाङ्गूलोल्लङ्कां देहे महाबलः दग्ध्वा लङ्कां समायातो रामपार्श्वं सवानरः जग्ध्वाबलं मधुवने दृष्ट्वा सीतत्य वेणीरत्नञ्च वे रामाय रामो लङ्कापुरीय स सुग्रीवः स हनुमान् विभीषणोऽपि भी भी सम्प्राप्तशरणं राघवं प्रति लङ्कैश्वर्येष्वभिषिञ्च द्रामस्थं रावणानुजं रामो नलेन सेतुञ्च कृत्वाब्धौ चोतदारदं सुवेलावस्थितश्चैव पुरीं लङ्कां ददर्शः अथ देवानरवीरामीलाङ्गदनलादयः धूम्रधूम्राक्षवीरेन्द्राजाभवत्प्रमुखास्तदा मैन्दन् द्विविधमुख्यास्ते पुरीं लङ्गाम्बभञ्जिरे राक्षसांश्च महाकायान् कालाञ्जन च योगमान् राक्षसान् विद्युज्जिह्व महोदर महापार्श्वावधिकाय महाबलम् कुम्भं निकुम्भम् मत्तञ्चमकराक्षम् ह्यकम्बनम् प्रहस्तम् वीरमुन्मत्तम् कुम्भकर्णम् महाबलम् रावणीं लक्ष्मणो चिन्तह्यत्राद्यै राघवो बली निकृत्य बाहुचक्राणि रावणं दुन्यपादयन् सीतां शुद्धां गृहीत्वाधविमाने पुष्पके स्थितः सवानरसमायादोऽध्याम्ब्रवराम् पुरीं तत्र राज्यं जकाराद पुत्रवत् पालयन् प्रजाः दशाश्वमेधानाहृत्य गयाशिरसिपातनम् पिण्डानां विधिवत् कृत्वा दत्त्वा दानानि पुत्रौ कुशलवौ दृष्ट्वा राज्येभ्ये च यदशसहस्राणि रामो राज्यमकारयद शत्रुघ्नो लवणम् जग्ने शैरुषम् भरतस्ततः अगत्यादीन् मुनीन्नत्वा श्रुत्वोत्पत्तिम् च राक्षसम् स्वर्गम् गतो इति श्रीगारूडे महापुराणे आचार्यकाण्डे रामायणवर्णनं नाम त्रिचत्वारिंशदुत्तरशततमोऽध्यायः ओम् अध्यायम् हण्ड्रेड् अण्ड् फोर्टि फोर् ब्रह्मो वाच हरिवंशम् प्रवक्ष्यामि कृष्णमाहात्म्यमुत्तमम् वासुदेवतुैक्यां वासुदेवो बलो धर्मादि धर्मादिरक्षणार्थाय च धर्मादिविनष्टये कृष्णपित्वास्तनौ गाढम् पूतनामनयक्षयम् शकटपरिवृत्तोधभग्नौ च यमलार्जुनौ दमितकालियो नागोधेनुगो विनिपादितः घृतो गोवर्धनशैल इन्द्रेण परिपूजितः भारावतरणं चक्रे प्रतिज्ञां कृतवान् हरिः रक्षणायार्जुनादेश्च ह्यरिष्ठादिर्निपादिदः केशीविनिगदो दैत्यो गोपाद्याः परितोषिता चानूरो मुष्टिको मल्लक्कं सो मञ्चान्निपादिदः रुक्मिणी सत्यपामाद्या ह्यष्टौ पत्न्यो हरेः पराः षोडशस्त्रिसहस्राणि ह्यन्यान्या स महात्मनः तासां पुत्राश्च पौत्राद्याश्चदशोधसहस्रशः रुक्मिण्याञ्च प्रद्युम्नोऽन्यवद्धी चम्बरञ्च यः तस्य पुत्रो निरुद्धोऽभू दुषा बाणसुधापदिः चकरयोर्यत्र महायुद्धं बभूवः बाणबाहुसहस्रञ्च छिह्नं बाहुद्वयं यभूद नरको निहदोयेन पारिजातं च हारयः बलश्च शिशुपालश्च हतश्च द्विविध कविः अनिरुद्धादुद्वज्रस्त च राजागदेहरौ सन्दीपनीम् गुरुञ्चक्रे सपुत्रञ्च चकारसः मधुरायां चोग्रसेनम् पालनं च दिबौकस्वा इति श्रीगारुडे महापुराणे आचार्यकाण्डे हरिवंशवर्णनं नाम चतुश्चत्वारिंशदुत्तरशततमोऽध्यायः ओम् अध्यायम् हण्ड्रेड् अण्ड् फोर्टि ब्रह्मोवाच भारतं सम्प्रवक्ष्यामि भारावतरणम् भुवः चक्रे कृष्णो युध्यमानः पाण्डवादिनिमित्तदः विष्णो नाभ्यब्जदो ब्रह्म ब्रह्मपुत्रो त्रिरत्रितः सोमस्तदो बुधस्तस्मादिलायां च गुरूरवाः तस्यायुस्तत्र वंशे भू ययादिर्भरदः कुरुः शन्तनस्तस्य वंशे भूद्गङ्गायां शन्तनोस्सुदः भीष्म सर्वगुणायुर्युक्तो ब्रह्मवैवरुतपारकः शन्तनो सत्यवत्यां च दौ पुत्रौ सम्बभूवधुः चित्राङ्गदन्तुगन्धर्वपुत्रं चित्राङ्गदोऽवधीर अन्यो विचित्रवीर्यो भूत्काशीराजसुधापदिः विचित्रवीर्ये स्वर्यादे व्यासत्तत्क्षेत्रतो भवद धृतराष्ट्रोऽम्बिका पुत्रः पाण्डुराम्बालिकासुदः भुजिष्यायान्दुविदुरो गान्धार्याम् धृतराष्ट्रतः दुर्योधनप्रधानास्तु शतः सङ्ख्या महाबलाः पाण्डोकुन्द्या च च पञ्चपुत्रा प्रजस्निरे युधिष्ठिरो भीमसेनोक्यर्जुनो न कुलस्तथा सह देवश्च पञ्चैदे महाबलपराक्रमाः कुरुपाण्डवयोर्वैरम् दैवयोगाद् बभूवः दुर्योधनेनाधीरेण पाण्डवा समुपद्रुदाः दग्धा जगुगृहे वीरास्ते मुक्ता स्वधियामलः ततस्तदेकचक्रायाम् तद ब्राह्मणस्य निवेशने विभिषुस्ते महात्मानो निहत्य मह राक्षसं तद पाञ्जालविषयेन्द्र उपद्यास्ते स्वयंवरम् विज्ञाय वीर्यशुल्कान्तां पाण्डवा उभये मिरे द्रोणभीष्मानुमत्यादु धृतराष्ट्रः समानयद अर्द्वराज्यं तद प्राप्ता इन्द्रप्रस्थे पुरोत्तमे राजसूयन् ततश्चकृत्सभां कृत्वा यदव्रताः अर्जुनद्वारवत्यां तु सुभद्रां प्राप्तवान् प्रियान् वासुदेवस्य भग्नीमनुमत्यामुरद्विषः नन्दिकोशं रथं दिव्यमग्नेर्घनुरनुत्तमम् पाण्डीवम् नाम तद्दिव्यम् त्रिषु लोकेषु विश्रुतम् अक्षयां साहाय्यकां शैव तदाभ्यद्यञ्जदं शनम् स तेन तनुषा वीरपाण्डवो जातवेदर्सम् कृष्णद्वितीयो बीभसुरदर्पयद नृपान् द्विग्विजये जित्व रत्नान्यादाय वै दधौ युधिष्ठिराय महदे दिविदे निदिविदे मुदा युधिष्ठिरोऽभिधर्मात्मा भ्रातृभि परिवारिदः युतो दुर्योधनेनैव मायाद्युधेन पापि न कर्णदुःशासनमदे स्थितेन शकुनेर्मदे अथ द्वादशवर्षाणि वने सा धौम्या द्रौपदी षष्टा मुनिवृन्दाभिसंवृताः ययुर्विराटनगरं गुप्तरूपेण संश्रिताः वर्षमेक महाप्राज्ञा गोग्रहात्तमपालयन् तदे या तास्वकं राष्ट्रं प्रार्थयामासुराधताः पञ्चग्रामानर्धराज्याद्वीरा दुर्योधनं नृपम् नाथवन्दः कुरुक्षेत्रे युद्धञ्चक्रोर्बलान्विताः अक्षौहिणीभिर्दिव्याभिः सप्तभिपरिवारिताः एका दशभिर् उद्युक्ता युक्ता दुर्योधनादयः आसीद्युद्धम् सङ्कुलम् च देवासुररणोपमम् भीष्मः सेनापतिरभूदादौ दुर्योधने बले पाण्डवानां शिखण्डी च तयोर्युद्धम् बभूवः शस्त्राशस्त्रि महाघोरम् धसरात्रम् शराशरी शिखण्ड्यर्जुनबाणैश्च शा भीष्म शरशतैश्चितः उत्तरायणमावीक्ष्य ध्यात्वा देवम् कदा धरम् उक्त्वा धर्मान् बहुविद्धां तर्पयित्वा पितृन् बहून् आनन्दे धुपदे लीनो विमले मुक्तगिल् विश्ये ततो द्रोणो ययौ दृष्टद्युम्नेन वीर्यवान् दिनानि पञ्च तद्युग्धमासीत् परमदारुणं यत्र ते पृथिवीपाल पार्थेन सङ्गरे शोकसागरमासाद्य द्रोणोऽपि तदकर्णाय योद्धुमर्जुनेन मिहात्मना दिनद्वयमहा युद्धम् कृत्वा पार्थास्त्रसागरे निमग्नसूर्यलोकन्धु तदप्रापसवीर्यवान् तदशल्यो ययवयोद्धुं धर्मराजेन धीमता दिनार्धेन ह दशल्यो बाणायर्ज्वलनसन्निभैः दुर्योधनोद वेगेन गदामादाय वीर्यवान् अभ्यदावद वै भीमं पालान्तकयमोपमः अध भीमेन वीरेण गदया विनिपादितः वी अश्वद्धामागदो द्रौणिः सुप्तस्यैनं तदो निशी जखान बाहुवीर्येण पि दुर्वधमनुस्मरन् दृष्टद्युम्नं जपानाद्रौपदेयांश्च वीर्यवान् द्रौपत्या द्रवपत्याम्रुद्या... द्रौपद्यां रुद्यमानायामश्वधाम्नः शिरोमणिम् ऐषिकास्त्रेण तं जित्वा जग्राहार्जुन उत्तमं युधिष्ठिरसमाश्वास्य स्त्रीजनं शोकसङ्कुलं स्नात्वा सन्दर्प्य देवांश्च पितृनथ पिता महान् आश्वासितोदभीष्मेण राज्यं चैव करोन्महद विष्णुमीजेश्वमेधेन विधिवदक्षिणा वदा राज्ये परीक्षितं स्थाप्य यादवानां विनाशनं श्रुत्वा दो मौसले राजा जप्त्वा नाम सहस्रकं विष्णोस्वर्गं जगामाध भीमाद्यैर्भ्रातृभिर्युधः वासुदेव पुनर्बुद्धसम्मोहाय सुरद्विषाम् कल्क्यर्विष्णुश्च पविता शम्भलग्रामगे पुनः अश्वारूढोऽखिलाम् लोकांस्तदा भस्मी करिष्यति देवादीनाम् रक्षणाय यथा धन्वन्तरिर्वंशे जाधकक्षीरोदमन्थने देवादीनां जीवनाय ह्यायुर्वेदमुवाचः विश्वामित्रसुदयैव शुश्रुताय महात्मने भारतांश्चावतारांश्च श्रुत्वा स्वर्गं व्रजेन्नरः इति श्रीगारुडे महापुराणे आचार्यकाण्डे भारतादिवर्णनं नाम पञ्चचत्वारिंशदुत्तरशततमोऽध्यायः ओम् अध्यायम् हण्ड्रेड् अण्ड् फोर्टि सिक्स् धन्वन्तरिरुवाच सर्वलोकनिदानञ्च पक्ष्ये शुश्रुततत्त्वतः आत्रेयाद्यैर्मुनिवरैर्यथा पूर्वमुदीरितम् गपाप्मा ज्वरो व्याधिर्विकारो दुष्ट आमयः यक्ष्मातङ्गकदा बाधा शब्दा पर्यायवाचिनः निधानम् पूर्वरूपाणि रूपाण्युपशयस्तधा सम्प्राप्तिश्च इति विज्ञानं रोगाणां पञ्चधा स्मृतम् निमित्त हेत्वा यदनप्रत्ययोद्धानकारणैः निदानमाहुपर्यायै प्राग्रूपम् येन लक्ष्यते उत्पित्सुरामयो दोषविशेषेणानधिष्ठितः लिङ्गमव्यक्तमल्पत्वाद्व्याधीनम् तद्यथायथम् तदेव व्यक्तताम् यादम् रूपमित्यभिधीयते संस्थानम् व्यञ्जनम् लिङ्गम् लक्षणम् चिह्नमाकृतिः हेतुव्याधिविपर्यस्तविपर्यस्तार्थकारिणाम् औषधान्नविहाराणामुपयोगम् सुखावखम् विद्यादुपशयं व्याधे सखि सात्म्यमिति स्मृदः विपरीतोऽनुपशयो व्याध्यसात्म्येदि संमिदः यथा दुष्टेन दोषेण यथा चानुविसर्पदा निर्वृत्तिराम यस्यासौ सम्प्राप्तिरभिधीयते संज्ञा विकल्पप्राधान्यबलकालविशेषतः सा भिद्यते यथात्रैव वक्ष्यन्तेष्ठौ ज्वरा इति दोषाणां समवेदानां विकल्पोश्यां स कल्पना स्वातन्त्र्य पारतन्त्र्याभ्यां व्याधे प्राधान्यमादिचेद हेत्वादि कार्ष्म्यावयवैर्बलाबलविशेषणम् न क्रन्दिनार्ध भुक्तांशैर्व्याधिकालो यथामलम् इति प्रोक्तो निदानार्थ निदानार्थसव्यासेनोपदेक्ष्यते सर्वेषामेव रोगाणाम् निधानम् कुपितामलाः तत्प्रकोपस्य तु प्रोक्तम् विविधाहितसेवनम् अहितत्रिविधो योगत्रयाणाम् प्रागुदाहृदः तिक्तोक्षण कषायाम्लरूक्षा प्रमितयोजनैः धावनो दीरणनिशा जागरात्युच्चभाषणैः क्रियाभियोगभिशोकचिन्ताव्याया ममैधुनैः ग्रीष्माको रात्रभु क्रियन्ते प्रगुप्यदि समीरणः पित्तं कट्वालतीक्ष्णोष्ण कडुक्रोधविदाहिभिः शरन्मध्यान्न रात्र्यर्धविदाहसमयेषु च स्वाद्वाम्ललवणस्निग्ध गुर्वभिष्यन्ति शीतलैः आस्यास्वप्नसुखा जीर्ण दिवा स्वप्नादिबृंहणैः पृच्छर्दनाद्ययोगेन भुक्तान्नस्याप्यजीर्णके पूर्वाग्ने पूर्वरात्रे च श्लेष्मा वक्ष्यामि शङ्करान् मिश्रीभावा समस्तानाम् सङ्गीर्णा जीर्णविषमविरुद्धाद्यशनादिभिः व्यापन्नमद्यपानीय शुष्कशाकामूलकैः पिण्याकमृत्यवसर पूदिशुष्ककृशमिषैः दोषत्रयकरैस्तैस्तैस्तधानपरिवर्ततः धातोर्दुष्टात् पुरो वादाद्विग्रहावेशविप्लवाद दुष्टा मान्नैरधिश्रैष्मग्रहैर्जन्मर्क्षपीडनाद मिथ्यायोगा च विधीता विविधा पापानाञ्जनिषेवणाद स्त्रीणां प्रसववैषम्यात् तथा विध्यनुगामिनः रसायनं प्रपद्याशु दोषादेहे विकुर्वते इति श्रीवारुडे महापुराणे आचार्यकाण्डे सर्वरोगनिदानं नाम षट्चत्वारिंशदुत्तरशततमोऽध्यायः ओम् अध्यायम् हण्ड्रेड् अण्ड् फार्टि धन्वन्तरिरुवाच वक्ष्ये ज्वरनिधानं हि सर्वज्वरविबुद्धये ज्वरोगपतिपाप्मां मृत्युराजोशनोऽकः कुब्धदक्षाध्वरध्वंसि रुद्रोध्वनयो रुद्रोर्ध्वनयनोद्भवः तत्सन्तापो मोहमयः सन्तापात्मापचारजः विविधैर्नामभिक्रूरो नानायो निषु वरुददे आकलो गजेष्वभितापो वाजेष्वलर्क कुक्कुरे कुक्रुत्रेषु कुक्रुरेषु इन्द्र मदो जलद्वेष्वप्सु नीलिका ज्वोदिरोषधीषु भूम्या मुषरो नाम हृल्ला सर्दनं कासस्तम्भ शैत्यत्वगादिषु अङ्गेषु च समुद्भूता पिडकाश्च कभोद्भवे काले यथा स्वं सर्वेषां प्रवृत्तिर्वृद्धिरेव वा निदानोक्तोऽनुपश्ययो विपरीतोपशायिता अरुचिश्च विपाकश्च स्तम्भमालस्यमेव च हृदाहश्च विपाकश्च तन्द्राचालस्यमेव च वस्तिर्विमर्दवनयदोषणामप्रवर्दनं लाला प्रसेको हृल्लासः शुनाशोरसदं मुखं स्वच्छमुष्णगुरुत्वं च गात्राणां बहुमूत्रदा न विजीर्णं न चम्लान्यर्ज्वरस्यामस्य लक्षणं क्षुक्षामदा लघुत्वं ज्वरमार्दवं दोषप्रवृत्तिरष्टाहान् निरामज्वरलक्षणं यथा स्वलिङ्गं संसर्गे संसर्ग वा शिरोर्ति मूर्चाव रोमहर्षा मूर्च्छावमिदेहदाहखण्डास्य शोषारुचिपर्वभेदाः उन्निद्रदसम्भ्रमरोमहर्षा जृम्भादिवाक्त्वं पवनात्स पित्तादन्यचिपर्वशिरोरुक्षी वन वाद जनित श्वसनकासविवर्णाः शीदजाड्यतिमिरभ्रमितन्द्राश्लेष्म वादजनितज्वरलिङ्गम् शीतस्तम्भस्वेददाभाव्यवस्था तृष्णाकासश्लेष्म पित्तप्रवृत्तिः मोहस्तन्द्रलिक्त तिक्दास्य ज्ञेयं रूपम् श्लेष्मा सर्वजोलक्षणै सर्वैर्दाहोत्र च मुहुर्मुहुः तदुच्चीदं महानिद्रो दिवा जागरणं निशि सदा वा नैव वा निद्रामः स्वेदो हि नैव वा हीदनर्तनः स्यादिप्रकृतेः प्रवर्तनम् साश्रुणी कलुषे रक्ते भुग्ने लुलितपक्ष्मणि अक्षिणीपिण्डिका पार्श्वशिर पार्वास्तिरुभ्रमः सस्वनौ सरुजौ कर्णौ महाशीर्दौहिनैव वा परिदग्धाघरजिह्वा गुरुस्त्रस्ताङ्गसन्धिदाीवनं रक्तपित्तस्य लोठनम् शिरसोदिदृढ कोष्ठानां श्यावरक्तानां मण्डलानां च दर्शनं हृद्व्यधा मलं सर्ग प्रवृत्तिर्वाल्पशोधि वा स्निग्धास्यदा बलभ्रंशस्वरसादप्रलाभिदः तोषपाकचिरं तन्त्रा प्रततं कण्ठपूजनम् सन्निपादमभिन्यासं तं ब्रूयाच्च हदौजस्सं वायुना कण्डरुद्धेण वित्तमं तत्सुपीडितम् व्यवायित्वाच्च सौख्याच्च बह् प्रपद्यते तेन हरिद्रनेत्रत्वं सन्निपादोद्भवे ज्वरे तोषे विवृद्धे नष्टेग्नौ सर्वसम्पूर्णलक्षणः सान्निपादज्वरो साध्यकृच्छ्रसाध्यस्तदोऽन्यथा अन्यत्र सन्निपादोऽद्धम् यत्र पित्तम् पृथक् स्थितम् त्वचि कोष्ठे च वदकविदधादि पुरोऽनुवा तद्वदादकभे दा शीतम् दाहादिर्दुस्तरस्तयोः शीतादौ दा तत्र पित्तेन पित्ते शान्ते मूर्चा वै मूर्च्छा मदतृष्णा च जायते दाहादौ पुनरन्धेषु तन्त्रालस्येवमिक्रमाद आगन्तुरभिगादाभिषङ्गशापाभिचारदः च दुर्गादुर्हृतस्वेदो दाहाद्यैरभिपादजः श्रमा च तस्मिन् भवनप्रायो रक्तम् प्रदूषयन् सव्यथाशोकवैवर्ण्यं सरुजं गुरुदे ज्वरं ग्रहा वेश्यौषधि विषक्रोदभी शोककामजः अविषङ्ग्रहोऽप्यस्मिन्न कस्माद्वासरोदने ओषधी गन्धजे मूर्छा शिरो रुग्वा मधुः क्षयः विषान्मूर्छितादि सारश्च श्यावदादाह कृद्भ्रमः क्रोधात् कम्पशिरोरुच्चप्रलाभो भयशोकजे कामाद्भ्रमो रुजिर्दाहो क्रीनिद्राधीधृदिक्षयाः ग्रहादौ सन्निपातस्य रूपादौ मरुदस्तयोः कोपात् कोपे विवित्तस्य यौ दौ शाभाभिचारजौ सन्निपातज्वरौ घोरौ ताव सह्यतमौ मदः तन्त्राभिचारिकैर्मन्त्रैर्दूयमानञ्चदप्यदे पूर्वञ्च इदस्तदो देहस्तदो विस्फोटदिग्भ्रमैः तदाह मूर्च्छाग्रस्तस्य प्रत्यगं वर्धते ज्वरः यदि ज्वरोष्टधादृष्टसमासाद्विद्धस्तु सः शरीरे मानसौम्यस्तीक्ष्णान्तर्बहिराशयः प्राकृतो वैकृतसाध्यो साध्यः सामो निरामकः पूर्वं शरीरे शरीरे तापो मनसि मानसे पवनैर्योगवाकित्वाचीदं श्लेष्मयुधे भवेद दाहपित्तयुधे मिश्र मिश्रयन्तः संश्रये पुनः ज्वरेऽधिकमिकारास्युरन्दः शोभोमलग्रहः बहिरेव बहिर्वेगे तावोऽपि च वर्षा शरद्वसन्तेषु वदाध्यै प्रकृतक्रमाद वै कृतोऽन्यः स दुःसाध्य प्रायश्च प्राकृतो निलाद वर्षासुमारुदो दुष्टपित्तशेष्मान्विधं ज्वरं कुर्या च पित्तं शरदि तस्य च न च रक्तभृत्या विसर्ग च तत्र नानशनाद्भयम् कपो वसन्ते तमपि वादपित्तं भवेदनु बलवत्स्वल्पदोषेषु ज्वरसाध्योऽनुपद्रवः सर्वदा विकृतिज्ञाने प्राग् साध्य उदाहृदः ज्वरोपद्रवतीक्ष्णत्वमन्दाग्निर्बहुमूत्रता न प्रवृत्तिर्न विजीर्णा न क्षुत्सामज्वराकृतिः ज्वरवेगोऽधिकस्तृष्णा प्रलापश्सनं भ्रमः मलप्रवृत्तिरुत्क्लयश्य पच्यमानस्य लक्षणम् जीर्णतामवि पर्या सा सप्तरात्रं च लङ्घनं ज्वरपञ्चविदप्रोक्ता मलकालबला बलाद प्रायश सन्निपादेन भूयसामुपदिश्यते सन्तत सततोन्ये दुस्त्रैति यगचतुर्धकौ धादुमूत्र सकृत्वा सां व्यापिनोमलाः पापयन्तस्तनुं सर्वान् तुल्यदृष्ट्यादिवर्धिताः बलिनो रसाश्रिताः सततं निष्प्रतिद्वन्द्वाज्वरं कुर्युः सुदुःसहम् मदं ज्वरोष्णधाधून्व सशीघ्रं क्षपयेत्तदः सर्वाकारसादीनां शुद्ध्या शुद्ध्यापि वाक्रमाद वादपितकपैः सप्त दशद्वादश वासराद् प्रायोनुयादिमर्यादा मोक्षायचवधा यज इत्याग्निवेश्यस्य मतं हारी तस्य पुनः स्मृतिः द्विगुणा सप्तमीया जनवम्येकादशी तथा एषा त्रिदोषमर्यादा मोक्षाय च वधाय च शुद्ध्या शुद्ध्या ज्वरकालं दीर्घमप्यत्र वर्धते कृश्यानां व्याधियुक्तानां मिथ्याहारादिदेशे विना अल्पो विदोषो दुष्ट्यादेर्लध्वान्यतमदो बलम् स प्रत्यनीको विषमम् यस्माद् वृद्धिक्षयान्विदः स विक्षेपो ज्वरम् कुर्याद्विषमक्षयवृद्धिभाक् दोष प्रवर्तते तेषाम् स्वे काले ज्वरयन् बली निवर्धते पुनश्चैव प्रत्यनीकबलाबलः क्षीणा दोषो ज्वरसूक्ष्मो रस्सादिष्वेीयते दीनत्वात् कार्श्यवैवर्ण्यजाड्यादीनां ददाति सः आसन्न विकृतास्यत्वात् स्रोतः साम्रसवाहिनाम् आशु सर्वस्य वपुषो व्याप्तिदोषो न जायते सन्तः सदत सन्तः सदतस्तेन विपरीतो विपर्ययाद विषमो विषमारम्भकक्षपाकालेन सङ्गवान् दोषो रक्ताश्रयप्राय करोति सन्ततम् ज्वरं अहोरात्रस्य सन्धौ स्यात् स गृधन्ये द्युराश्रुतः तस्मिन् मांसवहानाडी मेधो नाडी तृतीयगे ग्राहीपितानिलान् मूर्ध्नस्त्रिकस्य कपपित्तदः स पृष्टस्यानिल कफाः स चैकान्धरस्मृतः खां। स दुर्धकोमलर्मेदो मज्जास्त्यन्यतरे स्थितः मज्जास्तये द्विधा कपो निजङ्गाभ्यां स पूर्वं विपर्ययः त्रिधात्र्याकम् ज्वर यदि दिनमेकन्दुमुञ्जदि बलबलेन पक्रानाम पत्राणामविपर्यासप्तरात्रम् च लङ्घयेद ज्वर स्यान्मनः सत्तद्वत्कर्मणश्च तदा तदा गम्भीरसाधु चाजित्वात्सन्निपातेन सम्भवाद तुल्योच्छ्रयाश्च दोषाणां दुश्चेके चतुर्धकः सूक्ष्मात् सूक्ष्मज्वरेषु दूरदूरतरेषु च दोषोरक्तादिमार्गेषु शनैरत्पच्चिरेण यादि ह्यादिदेहञ्जनाशेषम् सन्तापादीन् करोत्यतः क्रमो यत्नेन विच्छिन्नः सदा भो लक्ष्य दे ज्वरखा विषमो विषमारम्भः क्षपा कालानुसारवान् यथोत्तरम् मन्दगतिर्मन्दशाक्तिर्यथा यथम् कालेनाप्नोति सदृशान् सरसादींस्तथा दोषोज्वर यदि क्रुद्धश्चिराचिरतरेण च भूमौ स्थितम् जलैसिक्तम् कालं नैव प्रदीक्षदे अङ्गुराय यथा बीजम् दोषबीजम् भवेत्तथा वेगम् कृत्वा विषं यद्वदाशयेन यदे बलम् कोप्यताप्तबलम् भूय कालदोषविशं तथा एवम् ज्वरा प्रवर्धन्ते उत्क्लेशो गौरवम् दैन्यम् भङ्गोऽङ्गानाम् विजृम्भणम् अरोचको व्यश्वासः सर्वस्मिन् नृसगे ज्वरे रक्तनिष्ठीवनम् तृष्णा रोक्षोष्णम् पीडकोद्यमः दाहरागभ्रममदप्रलाभो रक्तसंश्रिदे ्लानि स्पृष्टवर्चस्कमन्दर्दाहो भ्रमस्तमः दौर्गन्ध्यं गात्र विक्षेपो मां स्वस्थे दसिस्तिदे स्वेदोदितृष्णावमनं दौर्गन्ध्यं वा सहिष्णुदा प्रलाभो ग्लानिर गे त्वस्ति भेदनं दोषप्रवृत्तिरुद्बोधश्वासाङ्गे श्वेप श्वासाङ्गक्षेपकूजनम् अन्धर्दाहो बहिशैत्यं श्वासो हि काकि मज्जमे तमसोदर्शनं मर्मच्छेदनं स्तब्धमेड्रता शुक्रप्रवृत्तौ मृत्युस्तु जायते शुक्रः संश्रये उत्तरोत्तरदुःसाध्या पञ्चान्ये दुविपर्यये प्रलम्बन्निवगात्राणि श्लक्ष्मण गौरवेण च मन्दज्वरप्रलापस्तु सशीतः स्यात् प्रलेपकः नित्यं मन्दज्वरो रूक्षशीतकृच्छ्रेण गच्छति तब्धाङ्गैश्मभूयिष्टो भवे दङ्गबलाशकः हरिद्राभेदवर्णाभस्तद्वल्लेपं प्रमेहदि स वै हारिद्रको नाम ज्वरभेदोऽन्तकस्मृतः हा। कभवादौ समौ यत्र हीनवित्तस्य देहिनः तीक्ष्णो धवा दिवा मन्दो जायते दिवा करार्पिदबले व्यायामाश्च विशोषिदे शरीरे नियतं वा दाज्वरस्यात् पौर्वरात्रिकः आमाशये यदात्मस्ते श्लेष्मपि ते ह्यदस्थिदे तदर्थं शीतलं देहे ह्यर्थं चोक्ष्णं काये पित्तं यदन्यस्तं श्लेक्ष्मा चान्देव्यवस्थितः उष्णत्वं तेन देहस्य शीतत्वं करवादयोः रसरक्ताश्रयसाध्यो मांस मेधोगतश्चयः अस्ति मज्जागदकृच्चस्तैस्थै स्वाङ्गैर्हदप्रभो ज्र वेकार्त सक्रोध इव वीक्षते सदोष्णमुष्णञ्च सदा शकृन्मुञ्चदि वेगवद देहो लघुव्यपगतक्लममोह तपः पागोमुखे करणसौष्ठवमव्यधत्वं स्वेदः क्षुभप्रकृति योगिमनोन्नलिप्सा कण्डुश्च मूर्ध्नि विगतज्वरलक्षणानि यदि श्रीगारुडे महापुराणे आचार्यकाण्डेज्वरनिदानादिकं नाम सप्तचत्वारिंशदुत्तरशततमोऽध्यायः ओम् अध्यायं हण्ड्रेड् अण्ड् फार्टि एय्ट् धन्वन्तरिवाच अधातो रक्तपित्तस्य निदानं प्रवदाम्यहं भृषोष्णतिक्तकडु अम्लवणादिविदाहिभिः कोद्रवोद्दालकैश्चान्यैस्तदुक्तैरधिसेवितैः कुपितं पैति कैपित्तं द्रवं रक्तञ्च मूर्च्छति तैर्मितस्तुल्यरूपत्वमागम्यव्याप्नुवंस्तनुं पिक्तरक्तस्य विकृते संसर्गाद् दक्षणादपि गन्धवर्णानुवृत्तेषु रक्तेन व्यपदिश्यते प्रभवत्यसृजस्थानात् प्लीहद यकृतच्च शिरो गुरुत्वमरुचिशीतोच्छाद्धूमको म्लकः चर्दि तच्छर्दि वै भस्यं का स श्वासो भ्रमक्लमः लोहितो नहितोमस्य गन्धस्यात्त्वञ्च विज्वरे रक्तहारिद्रहरितवर्णदानयनादिषु नीललोहितपीतानां वर्णानामविवेचनं स्वप्ने यन्मादधर्मित्वम् भवत्यस्मिन् भविष्यदि ऊर्ध्वम् न साक्षि कर्णस्यैर्मेढ्रयो निगुधैरधः कुपितम् प्रोमकोपैश्च समस्तैस्तत् प्रवर्तते ऊर्ध्वम् साध्यम् कपाद्यस्मात्तद्विरेचनसाधितम् बहौषधानि वित्तस्य विरेको हि वरौषधम् अनुबन्धीकहो यत्र तत्र तस्यापि शुद्धीकृत कषाय स्वादवो यस्य विशुद्धौ श्लेष्मलाहि कडुतिक्तकषाया वा ये निसर्गात् कथा वहाः अल्पौषधं च पित्तस्य वमनं नावमौषधम् अनुबन्धिबलं यस्य चान्दपित्तनरस्य च कषायश्च हि दत्तस्य मधुरा एव मत्वा दसाध्यादौषधस्य च न हि संशोधनम् किञ्चिदस्य च प्रतिलोमिनः शोधनम् प्रतिलोमञ्जरक्तभित्तेऽभिसर्जितम् एवमेवोपशमनम् संशोधन मिहेष्यते संसृष्टेषु हि दोषेषु सर्वथाच्छर्दनम् हितम् तत्र दोषोऽत्र गमनम् शिवास्त्र इव लक्ष्यते उपद्रवाश्च विकृतिम् फलतस्तेषु साधितम् इति श्रीगारुडे महापुराणे आचारकाण्डे रक्तपित्तनिदानम् नामाष्टचत्वारिंशदुत्तरशततमोऽध्यायः ओम् अध्यायम् हण्ड्रेड् अण्ड् फोर्टि 149 धन्वन्तरिरूपाच आशुकारीयत काः स एवाथ प्रवक्ष्यदे पञ्चकास स्मृता वादपित्तस्वेष्मक्षतक्षयैः क्षयायोपेक्षिता सर्वे बलिनश्चोत्तरोत्तरम् शुष्कर्णस्य कण्ठत्वं तत्राधो विहितो निलः ऊर्ध्वं प्रवृत प्राप्यो रस्तस्मिन् कण्ठे जस्मृशन् शिरास्रोतांसि सम्भूर्य तदोङ्गान्युक्षिपन्ति च क्षिपन्निवाक्षिणि प्रवर्धदे सवक्रेणभिन्न कांस्योपमध्वनिः कृत्पार्श्वे रुषिरशूलमोहक्षोभस्वरक्षयन् करोदिशुष्कपासञ्ज महावेग रुजास्वनं सोङ्ग हर्षोकपं शुष्कं कृच्छ्रान् मुक्त्वाल्पदां व्रजेद पित्तापीताक्षिकत्वं च तिक्तास्यत्वं ज्वरो भ्रमः पित्ताशृग्वमनं तृष्णा वैश्वर्यं धूमगोमगः प्रततं कासवेगे ज्योदिशामिवदर्शनं कभा दुरोल्परुङ्मूर्धिकृतयं स्तिमिदे गुरु कण्ठे प्रलेपमदजं पीनसच्चर्भ्यरोचकाः रोम हर्षोधनस्निग्धं श्लेष्मणाञ्च प्रवर्धनम् युद्धाद्यैः साहसैस्तैस्तैः सेवितैर यथा बलम् उपस्यन्तः क्षतो वायुपित्तेनानुगतो बली कुपितपुरुदे कासं कफं तेन सश्रोणिदं सशोणिदम् पीदं श्यावञ्ज शुष्कं जग्रथितम् कुपिदम् बहु ष्ठीवेत्कण्ठेन रुजदा विभिन्नेनैव सुची शुचि शुचिभिरिवतीक्ष्णा भेत्तुद्यमानेन शूलिना दुःखस्पर्शेन शूलेन भेदपीडाहितापिना पर्वभेदज्वरश्वासतृष्णा वैश्वर्यकम् भवान् ावदयिवोत्कूजन् पार्श्वचूलीतदोऽस्य च कपाद्यैर्वमनम् पक्तिबलवर्णम् जहीयते क्षीणस्य सासृङ्मूत्रत्वम् श्वास पृष्टकडिग्रहः कुपिदादावदो राजयक्ष्मणः कुर्वन्ति यक्ष्मायतनेकासम् षष्ठीवत्कफम् तदः पूरिभूयोपमम्बिदम् मिश्रम् हरितलोहिदम् सुप्यदे तुद्यत इव हृदयम् पचतीव च आकस्मादुष्णशीदेच्छ बह्वाशित्वम् बलक्षयः स्निग्धप्रसन्नवक्त्रत्वम् श्रीमद्दर्शननेत्रद तत्रोऽस्य क्षयरूपाणि सर्वाण्याविर्भवन्ति च इत्येष्यक्षयजकाः सक्षिणानाम् देहनाशनः याप्यौ वा बलिनाम् तद्वक्षतजोऽपि नवौ तु तौ सिद्ध्येतामपि सामर्थ्या साध्यादौ च पृथक् मिश्रायाप्याश्चये सर्वे जरःसस्थविरस्य च चार। हासस्वा सयच्छर्दिस्वरसादादयोगदाः भवन्त्युपेक्षया यस्मात्तस्मात्तस्त्वरया जयेद इति श्रीकारुडे महापुराणे आचार्यकाण्डे का स निदानामैको शततमोऽध्यायः ओम् अध्यायम् हण्ड्रेड् अण्ड् फिफ्टि धन्वन्तरिरुवाच अथात श्वासरोगस्य निधानं प्रवदाम्यहम् कासवृद्ध्या भवेच्छ्वासपूर्वैर्वा आमादिसारवमधु विष पाण्डुज्वरैरवि रजोधूमानिलैर्मकादादपि हिमाम्बुना क्षुद्र क्षुद्रकस्तमकच्छिन्नो महान्ूर्ध्वश्च पञ्चमः महा कपो परुद्धगमनभवनो विश्वगास्थितः प्राणोदकान्नवाहिनि दुष्टस्रोदांसि कुरुस्थ कुरुदेश्वास मामाशयसमुद्भवं प्राग्रूपं तस्य कृत्पार्श्वशूलं प्राणविलोमदा आनाखशङ्खभेदश्च तत्राया सोधिभोजनैः प्रेरित प्रेरयन् क्षुद्रं स्वयं ससमलं मरुद प्रतिलोमं शिरागच्छेदुवीर्यपवनः कभम् परिगृह्य शिरोग्रीवमुरुपार्श्वे च पीडयन् कासम् खुर्खुरकम् मोह मरुचिम् पीनसम्भृशम् करोति तीव्रवेगम् च श्वासम् प्राणो पदापिनम् प्रदाम्येत्तस्य वेगे नष्टि वनान्तेक्षणम् सुखी कृच्छ्राच्छयनश्वसिति निषण्णस्वास्थ्यमर्हति उच्छ्रिताक्षोललाडेन स्विद्यदा भृश्यमार्तिमान् विशुष्कास्यो मुहुष्वास्य काङ्क्षत्युक्ष्णम् सवे पधुः मेखाम्बुषीद प्राग्वादैः श्लेश्मलैश्च विवर्धते स याप्यस्तमकः नरस्य बलिनो भवेद ज्वरमूर्छावदसि दैर्न शम्येत् प्रथमस्तुत्सह कासस्वसि दवच्छीर्णमर्म चेदरुजार्दिदः सश्वेदमूर्च्छः विबोधवान् अथो सुदाक्षस्तु स्निह्यद्रैकलोचनः शुष्कास्य प्रलपन्दीनो नष्टछायो विचेतनः महाकामहदादीनो नादेनश्वसि दिक्रधन् उद्धूयमानसमृद्धो मत्तर्षभ इवानिश्यम् प्रनष्टज्ञानविज्ञानो विभ्रान्तनयनानकः नेत्रे समाक्षिपन् बद्ध मूत्रवर्चा शुष्कखण्डो मुहुश्चैव कर्ण शङ्खाशिरोतिलुक यो दीर्घमुच्यसित्यूर्ध्वम् न च प्रत्याहरत्यधः श्लेष्मावृतमुखश्रोधक्रुद्धगन्धर्वहार्दितः ऊर्ध्वम् यदे सिद्धेयुरव्यक्ताव्यक्ता प्राणहराध्रुवम् इति श्रीकारूडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचार्यकाण्डे श्वास निदानाम पञ्चाशदुत्तरशततमोऽध्यायः ओम्